कृष्णयजुर्वेदतैत्तिरीयसंहितायाम् सप्तमकाण्डे प्रथमप्रश्नः प्रारम्भः ेवोदिर्भिराक्षन्दसां ज्योर्भिराक्ते प्राणश्चापानस्य द्वो माध्यम्यो सवनयथा शिक्षश्चीयसवनयथाा चतुर्षदं यतोमा एष यज्ञोऽस्तो रर्यं कामं कामयते तमेतेनाभ्यस्तु स्मादोषध्यकारे वृन्दतो आहुप्रजा हि तस्मात् सर्ववेदसेवा सहस्रेवावकृता एवं विद्वान् प्राजादा प्रजा जनयते ्राह्मण मनुष्याणां पशूनान्दस्मात्यन्दुभ्यां मनुष्याणां पशूनान्दस्मात्य वेद्यान्दमध्यप्तदशन्ये देवादेव पशूनां तस्मात् तन्न रात्रोत्रस्य तस्मात् श्रोत्रा याकं वसृज्य पञ्चदश प्रजापतिः सप्तदश श्रे इमे लोका वा दृत्य एकविंश एतस्मिन् वा एते श्रिता एतस्मिन्प्रतिष्ठिताय एवम् वेदेतस्मिन्नेव श्रेयः एतस्मिन् प्रतिष्ठति ेवैका यत्रेण छन्दसा त्रिभुते स्तोमा यद्यो देतृता ब्रह्मवक्षा यद्यो वीर्येण सप्तदशा यद्यो देन सप्तदशेन प्राजावत्येन प्रजननेनैक विंशा यद्यो देति स्तोम ेतावद एव स्तोमानेतावदः कामानेतावदो लोकानेतावन्दित्योतीकृष्यवन्दे खल्वै येन यजमानो यजु देयस्य पञ्चदशमन्दि वीर्यं दस्यान्तर्यन्ति वीर्ये मेऽप्य सति खलु येन यजमानो यजि देयस्य सप्तदशमन्तर्यन्ति प्रजान्दस्यान्तर्यन्ति प्रजायाम्येऽप्य सतिधि खलु येन यजमानो यदि देयस्यैकविंशमन् तर्यन्ति प्रतिष्ठान्तस्यान्तर्यन्ति प्रतिष्ठायाम्येप्य सति नक्षत्रियाञ्च विराजमन्तर्यन्त्यक्षत्रियायाञ्च देवतास्तस्यान्तर्यन्त्येवता सुमेऽप्य सतिकलवी येनैजमानोमानामवं परमतां गच्छन्तं वेद परमतामेव गच्छति त्रिवत्य नाम वमसवत्परमो य एवम् वेदरमतामेव गच्छति ङ्गरसो वै सत्रमा सत्येषु वर्क्यं लोकमायन्देशाविष्मागुश्च हविष्कृत्यां लोकमेतान्य एवं मित्रामेव लोकमे जावयिताम्बोर्वेणाभिप्रभक्पोर्वमहद्भवतिष्ठोमाग्निष्टोभक्पोर्वमहद्भवति तेजस्तेन ै गायत्रै गायत्री ब्रह्मवत्येवत्येष्टभोजो एव वीर्यमार्पन्धत्ते रसुन्दरं गोर्वे हंसामस्यामेव प्रतिष्ठति बृहदुत्तर्यामेव प्रतिष्ठति तदा हुक्मजयतीष्ट भवत्युत्तरस्मिन् भवतोमद्भवः विश्वन्धनमुत्तरम् प्रतिष्ठत्यै भो वायमासे तस्मिन् प्रजापदर्वायिभोत्वा च रत्स इमामपश्यतां विश्वकर्मा भोपाव्यमात्सा पृथ पृथिव्यथिव्यै पृथिवित्वम् तस्यामिश्रामे प्रजापतिः देवाः प्रजापतिमत्रेभ्यो यतनेन श्राम्येनायेन गोरक्षत्वमिता वसुभ्योर्त्रेभ्य आदित्येभ्यप्राजायत्रेण सहस्रेण न याजयेतुष्टाजयत्र न्द्रत्यादस्य उक्ते नृत्यानयादोरात्रेणादित्याघातुं मध्यमस्यान्नम् भवति सञ्जानानि सोक्तानि शगु सति षोडश नघु एव प्रथमः स्यादोक्ष्यो धादिरात्रीणि विष्णुस्य विष्णुसहस्रं विष्णुस्त एतावच्छा वाक एव शु सत्यधया सहस्रतमीयाहो त्रेये देहोच्यते तस्यापिताहु नेत्रे देये सहस्रस्यादृक्तंहृताकृत्यां ब्रह्मणे द्वितीय ब्रह्माविष्णव इत्यथा हुर्याकल्याणीमयत्य सहस्रस्य परिगृहे तद्वा एतत्सहस्रस्यायनगो सहस्रस्त्वक्रिया सहस्रं दक्षिणा सहस्रतो लोकस्वर्गस्य लोकस्याभिरित्ये स्वी सहस्रमविन्दत्तमिन्द्रान्न योऽप्रभीदस्त्वमेऽत्राभेद्य एकस्यां वीर्यं वर्यपश्यदियं वातावीर्यं ममा प्रोदाे वा एतदेतस्यामो रामः इति तस्यामंशमाहरप्रावेशयन् सोमा योः पिङ्गलैकहायिने रूपं गत्वा त्रयस्त्रिपुंशदास्मात्रोहिण्या पिङ्गलैकहायिन्या स्वमङ्गी ृरोहिण्यापिन्या सीणा ऋत्रे त्रिमुशतास्य त्रिभिश्चेतारोहिणी लक्ष्मणां मृत्पात्रे त्रिगुशा तस्माणी लक्ष्मणाम् पृष्ठभीं वातर्मेन्द्र्याद्य एवं विद्वानुरोहिणीं लक्ष्मणाम् पृष्ठभीं वातै त्रिगुंशत्य ैवास्य त्रीणि दशता निषा दत्ता भवे नियस्त्रिविंशदास्माज्जरते मूर्खान्द्र हन्यामनुस्तरणीं कुर्वे एवं विद्वाञ्जरते मूर्खान्द्रमनुस्तरणीं कुरुते त्रे त्रिविंशत्यैवास्य त्रीणि दशतास्मिन् लोके भवति वा दत्ता भवति तस्मात् साहिश्रमस्य प्रतिगृहीतं भवती कल्याणीपसमर्धा साहि समृद्धैदामुत्तरेणाग्ने्याणीयाहवीयस्यान्ते पुषुमान् प्रीमान् भवति एवम् वेदम्भरेत्य पुरस्तात् प्रीच्यान्धिष्ठन् जाञ्जुहुयाजिज्ञ धर्मपराजय धैनपराजिज्ञे इन्द्रश्च विष्णायुदपस्मृतेकुं दात्रीमेवैनाङ्करोतिसहस्रस्यैवैनाम् मात्रातिरूपाणि दहतिरूपैरेवैनाकुसमर्थैतस्या उपोध्यायकन्नमाजवेदिप्रियेभ्ये महिविश्रुत्येतानि तेभ्ये नामानि सुकृतम् मा देवेषु प्रोतान् देवेभ्य एवै नमा वेदेत्यन्वेन देवाबुध्यन्ते सहस्रतम्या वैजमानस्वर्गम् लोकमेति सैन्यकं सुवर्गम् लोकङ्गमयति सामा सुर्गम् लोकङ्गमयेत्याः सुवर्गमेवेनम् लोकाङ्गमयसामा ज्योतिष्पन्दम् लोकङ्गमयेत्याः ज्योतिष्पन्दमेवेन लोकङ्गमयसामा सर्वान् पुण्यान् लोकाङ्गमयेत्याः सर्वानेवेन पुण्यान् लोकाङ्गमयिसामाना पशुभिः सह पुनर्माविशतां पशुभिरय्यां प्रतिष्ठा मयदि प्रजावाहान् भवति एवं वेदतामग्नी ब्रह्मणे वा होद्रेवो ध्याद्रे वा दत्ता भवति सहस्रमस्य प्रतिगृतं भवति गृह्णा दतां प्रतिगृह्णे यादेका दनसहस्रमेकान् त्वा भूतां प्रतिगृह्णा मृसहस्रमेका मा भूता विषमा सहस्रमित्येकामेवतां प्रतिगृह्णा दलसहस्रं एवं वेदस्यो नासि सुषदा सुषेवामा विशसनामा विषयवामाविषयत्याहस्यो नैवैलगो सुसदा सुसेवा भूताविश दनैलगो यस्य ब्रह्मवादिमा वदन्ति सहस्रघो सहस्रदम्यन् वेति सहस्रदमैवो सहस्त्रा। देशा ज्ञात्रम् क्षिप्रे सहस्रम् प्रजायमानीयते प्रथमा देवान्गच्छति य प्रजात्रकामाय शरीरमन्य यातयामास एतन्त रात्रमशक्तमा हृत्येन एत वेदस्य चत्वारो वीरा आजायन्तसो दासोद्गादास्वद्भर्यः सुषभे यो य एवं यागश्च रात्रेण यजदास्य चत्वारो वीराजायन्ते सुदासोद्गादास्वद्धर्युः सुषभे यो ये च दर्विगुंशा श्रद्धादे वन्यजमानं चत्वारि वीर्यानिलोपानमन्देज इन्द्रियं ब्रह्मभक्त्यसमन्नात्यपुंस एतागुश्चतुरश्चतुष्टो मां सोमाननुश्रद्धानाह रक्तैरयजतेज एव प्रथमे नामानन्देन्द्रियम् न्दृतीये नान्नात्यञ्ज ते नय एवम् विद्वागश्चतुरश्चतुष्टो मां सोमानाहर्जितै एव प्रथमेनावरुन्ध इन्द्रियम् द्वितीयेन ब्रह्मवष्टसंनात्यञ्जते नयामेवाद्यमात्मामेव यजमानात्नोति यमदग्निः पुष्टिकामश्च रात्रेण यजतस एतान् पोषागो अपुष्यत्तस्मात्परितोजामदग्नियो न सञ्जानाते एवम् विद्वाकश्च रात्रेण इजते पुरोडाशिन्यशभो वै पुरोडाशः पशुनैवावृन्धेन्नम् वै पुरोडाशोऽन्नमेवावृन्धेन्नादः पशुमान् भवति एवम् विद्वाकश्च रात्रेण इजते संवत्सरो वा इदमेक आसीत्सो कामय रत्वांसे पञ्चरात्रमवश्च एवं विद्वान् सहस्रं पुषन् प्राप्नोत्य एवं विद्वान् पञ्चरात्रेण इजते प्रसहस्रं पशूनावदिता वाचप्रवदिता भवत्य एवं विद्वान् पञ्चरात्रेण इजते प्रवदितैव वाचो भवत्यथ एनं वाचस्पतिरित्या वृणाः कश्च रात्रोऽष सम्प्रति यज्ञोपञ्चरात्रौ एवं विद्वान् पञ्चरात्रेण यजदे सम्प्रत्यैव यज्ञेन भवति पञ्चवाग् संवत्सराेव संवत्सरे प्रदतिष्ठत्यस्पाङ्गमेवावृन्धे त्रवदग्निष्वोमा भवति तेज एवावृन्धे पञ्चदशा भवतीन्द्रियमेवावृन्धे सप्तदशा भवत्यन्नाद्यस्यावृद्ध्या अथ प्रैवेजायते पञ्चविंशोऽ भवति प्रजापते रात्री महावृतवानन्नाद्यस्यावृत्ते विश्वजित्सर्वपृष्ठाद्रात्रा भवति सर्वस्याभिजित्ये एतस्य नासविदः प्रसवेश्विनो बाहुभ्याम्भ्यामाज इमामगुर्भ्यङ्गशनायुषु विदथेषु कव्या या देवाः स्वतमापभोवरतस्य सामं स्वरमारबन्ति सि यन्तासि धर्तादितो नरको सप्रथसङ्गच्छ स्वाहान्ताराढ्यन्तासे धरणष्ये त्वा क्षेमा यत्त्वा रह्ये त्वापोषायित्वा पृथिव्ये त्वान्तरिक्षा यत्त्वा पृथिवे त्वा सदे त्वा सदेय त्वाद्भ्यस्पौषदेभ्यस्त्वार्श्वेभ्यत्वाभूतेभ्यः मात्रा प्रभो पृत्राश्वाच्ये स्वाहा स्वाहेन्द्राग्भ्याग स्वाहा प्रजापतये स्वाहाेभ्य देवेभ्य स्वाहाभ्य देवताभ्यहे स्वाहे स्वाहे र स्वाहे भुव्यायित्वा भविष्यते त्वा विश्वेभ्य स्वाभव भ्यो देवा आशापाला एतम् देवेभ्यो स्वमेधाय प्रोक्षितङ्गोपायता आयिना स्वाहा प्रायणा स्वाहो द्रावा स्वाहो दृधाय स्वाहा शुकारा स्वाहा शुकृता स्वाहा पलायिता नये स्वाहा सोमा स्वाहा वायुवे स्वाहा वामोद स्वाहा सुमित्रे स्वाहा सरस्वत्यै स्वाहेन्द्र श्रिये स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्या स्वाहा स्वाहा स्वाहा प्राशीषे स्वाहा दक्षिणायदिशे स्वाहा प्रीचीशे स्वाहोचीषे स्वाहा स्वाहाभिस्वाहा Atta Esvaha, Sama Esvaha, Svitra Esvaha, Srasmatya Esvaha, Pushtya Esvaha, Pratya Esvaha, Pammoda Esvaha, Vayve Esvaha, Mitra Esvaha, Vrana Esvaha, Sarvasme Esvaha. स्वाहा दृक्षा स्वाहा स्वाहाये स्वाहा सोमा स्वाहा सूर्या स्वाहा चन्द्रमुखे स्वाहा रात्रि स्वाहा स्वाहा स्वाहा कृते स्वाहा चित्रे स्वाहा रोगाय स्वाहा हिमाय स्वाहा शीता स्वाहा तपा स्वाहा अरण्याहा सवर्गा स्वाहा लोकाय स्वाहा सर्वस्मे स्वाहा भो भो देवानां कर्म न्दसायना हविषा दीक्षयाम्याहम् दीक्षामरहमृतस्य पत्नी गायत्रेण ब्रह्मणातिस्वा हेहृतिस्वा हेहरन्धिस्वा हेहरमतिस्वाहा ाय स्वाहे कृता स्वाहा क्रन्दधे स्वाहा क्रन्दधे स्वाहा प्रोददे स्वाहा प्रोदये स्वाह स्वाहा स्वाहा प्राणाय स्वाहाय स्वाहाय स्वाहा संधीयमाना स्वाहा संविधामाना स्वाहा विरक्ता स्वाहायिष्यमाणाय स्वाहायिता स्वाहोष्ठते स्वाहो स्वाहा स्वाहा निविशमानाय स्वाहा निष्ठाय स्वाह नियच्छ स्वाहा जीदे स्वाहा निन्नाय स्वाहा स्वाहा दीनाय स्वाहाय स्वाहा स्वाहा नृत्यमानाय स्मः नृन्नाय स्वाहा जीषदे स्वाहा शयानाय स्वाहा जिता स्वाहा स्वाहा स्वाहाय स्वाहा स्वश्रदे स्वाहा रुधाय स्वाहा शुश्रोषमाणा स्वाहा स्वाहाश्रुताय स्वाहा वीक्षिश्रुते स्वाहा वीक्षमाणाय स्वाहा वीक्षदाय स्वाहा बृह्माश्रुते स्वाहानाय स्वाहो दिहानाय स्वाहा स्वाहा विरुमानाय स्वाहा विरुक्ताय स्वाहो अथादे स्वाहो त्रे स्वाहोदाय स्वाहा विधविष्यदे न्ताय स्वाहा चङ्क्रमिष्यदे स्वाहा जङ्ग्रम्यमाणा स्वाहा चङ्क्रमिता स्वाहा कण्डोयिष्यदे स्वाहा गण्डूयमानाय स्वाहा कण्डोयिता स्वाहा निगमिष्यते स्वाहा निकषमाणाय स्वाहा निकषताय स्वाहा स्वाहायर्तस्मै स्वाहाय जतस्मै स्वाहा स्वाहा स्वाहा प्रजाभ्य स्वाहा प्रजननाय स्वाहा सर्वस्मै स्वाहा ये स्वाहासूर्याय स्वाहत्तमश्रुतस्य सत्यमधि सत्यस्य